अथ प्रथमाष्टके द्वितीयः प्रश्नः प्रारम्भः ओद्धन्यमानमस्यामेध्यम् अपपापानञ्जमानस्य हन्दु शानस्य हन्दप्रतिशश्चदस्रः षण् माता पृथिवीतोऽकसाता षण् रविष्टये आपो भवन्तपीतये श्रियोरभिश्रवन्दनः ैश्वानरस्य रूपम् चर्याम् परिस्रसा स्योलमाविशन्दुनः यदिदम् दिवो यतः पृथिव्याः सञ्जाने रोदसीदम्बभूपदुः पुरुषाम् कृष्णमकृष्णमूषाः यो वयोमागमिष्ठाः ओगे कुर्वाणो यथिवी मतिरः महाकारमाघरूपम् प्रतीत्यमेव सम्भरन्तः शतञ्जीवेम वीरा भरन्तः सञ्जीवेमः पुरुचीः अम्रीभितम् गुहासु श्रत्रन्द उर्व्यपधिराभवामः प्रजापतिसृष्टानाम् प्रजानाम् श्रुतापहत्यैषु विदन्नास्तु उपप्रभिन्नविषमोऽम् प्रजाभ्यः सोदनभ्येभ्योरसमाभरामि अस्य रूपम् विभ्रतिमामविन्दत गुहाप्रविष्टासरिमध्ये तस्येदम् विहतमाभरन्तः अचम्बट्कारमस्याम् विधेम ीम् शिवा शर्करा अग्नेरेदश्चन्द्रगोहिरण्यम् तद्भ्यः सम्भोधमुहूतम् प्रजासो तत्संहरन्नत्तरतो निधाय प्रेच्छन्दुरितन्दरेयम् दशोरूपम् भृत्वाष्वच्छेतिष्ठ संवत्सरम् देवेभ्यो निरायतेभरन्तः शरदस्य वीराः पृथिव्या त्रितोषामदेमायि प्रिया सोऽयम् पर्णस्योपपर्णाद्रिजातः ूषान्ते हराम्यहम् सृष्टस्य यदः इरङ्गम्भाः धर्मो लोकमलप्रभाहितशनेः संहरामि सात्माग्नेभृयः चित्र्याश्रः शरीरस्था प्रजापतिना संमिताः तिस्रमजनाप्रजातास्तनोऽहरामि शान्तयानुचनीगर्भम्ब्रह्मवेदः यथा शरीरम् भोगेषु न्यक्तम् ससंवरस्यैतप्रजाभ्युरुणो लोकमनुेषु विद्वान् प्रवेदते प्रभयवेऽध्याय वचो वन्दारुवृषभाय कृष्णेणस्तु तव देवान्धान्दुवस्य कृते को देराम् आस्मिन् हव्याजुराष्मदीन्दुहमिधा ममभिरङ्गिरः कृतेनोध्यावधिोयविष्ठे विश्ववारः स्वजिष्केशोपकः प्रतीगो हृदयो रत्ः ृते समित्वाहुतम् तेषु कामट्ने प्रतिप आहुतम् कृतेन नयवसोऽजमि धादमेधेरे समावृधानं घोषदेववृक्षता कृृत्यार्गमोऽसि पार्थिवाविदिष्टदे रुद्रप्रदीघं वर्षते दौर्षदं अक्यं मित्रं संविधानं जते नामोऽक्रो विदशे गृहीत्र सत्यवन्न नामकं नायकं सरेधिम् याज्ञिम्बस्य आआशाऽष्टविष्टः आष्टान्यस्माधेहि दान्रासन् सततस्वे मेविश्वपतिये सदने रस्यर्वाजे इन्द्रणेनाम् ै जातवेदसम् आरोहदं जो जीवन्तोत्तरामुत्तराहम् पौर्णमासंज्ञथायैः सौ अग्निरेदसोदेव महन्दतेभृतः वीरञ्जनयिष्यथ ते म प्रातःप्रजनिष्येते ते माप्रजा ते प्रजनयिष्यथ प्रजया पृशुब्रह्मजे लोके अनुरास्त्वमित्युन्दराम्यहम् ज्ञातवेदोनस्य सञ्जानम् लग्नहारोह तथा नयम् अपेदभीपदादः ये त्रय जनोदनाः तदा पृथिव्याः अक्रम्यस्मैषमतीकामधियात् संवस्तुजामि हृदयामि समुदृष्टम्नोस्त्वः समुदृष्टः प्राणोस्त्वः संयावप्रियास्तर्वः सम्प्रिया हृदयानुवः ये ीन्तिकावृतोेणो त्वमेतत्मिव प्रामि ष्ठन् रायः प्रजाभिर्देयाश्वे कृष्णे सुष्मायायुषे उच्चेतो देवे आत्मा विष्ट्र्यमक्ष्य अनत्यावा ेदाः शम्भोः ्यानशेदाे गोपाय अमृत्वाय जीवते तत्र मे गोपाय विवाद हे जलस्पुधाग्नेः हे दै सभाशुभाः सकृ मे गोपाया हे जल य पश्यन्तुमानाय कामान् बाणेन वाचा मनसा बिभर्मि लोकाः एतान्यकार्याहुष्टर्गो लोकयिनि तादृशाक्मिष्टामस्य स्तोत्राणिराजमिदम् पद्यन्ते ते त्यावृच्यते एकया विरुः स्वर्गो विरोगो ज्योतिः स्वर्गमेव इमानेवैतैर्लोकान् सन्दम् पुरः संवत्सरमुयन्ति गौर्वाञ्चन्ति गौर्वाञ्च भिवम् यः कृत्वा प्रजापती सह वेमेन्द्रः तथा देवे प्रवीन्दे चन्द्रदेवः एते गृहं परसम्मानः शुकान् विगतिन् तथा शालय रक्षति देवो संघक्षस्य रक्षति एतेन वृщерनो शुदिर्मोत्सस्य रक्षये भविष्यन्ते आथाम आत्मच्छेयो हेदेलेखिन्दे तथा शालय रक्षये मध्यमं बन्धम इच्छति न्ति प्रत्युत्तरः प्रशराल्यते आहरेव रूपेण समर्ति अथ एवैषते सत्य शीर्षन् प्राणाः इन्द्रत्वाभाव्य श्रीमान् लोकानभ्यजगदत् तस्यासो लोकानुषकर्म भूत्वाभ्यजिगत् तद्वैश्वणो स्वर्गस्य लोकस्याभिन्ते आदितश्वादि तस्यामन्येन सीमान्तं गत्वा एषो वेदप्रतिष्ठितः अस्मादन्तयन् सर्वेषु स्वर्गेषु लोकेषु देवावादित्यस्य वर्गस्य लोकस्य आदित्यस्य क्रियन्ते रश्मियो वा कीर्त्याः पौमानयोः नादि वा कीर्तिगृहोत्पृष्ठम् हर्णम् ब्रह्मभागम् आसोष्टोमः परानी अथैतानि पराणि परैर्वेदेवारित्यमुर्गन् लोकमपारेण एवं वेदा अथैतानि स्फराणि स्वरैर्वेदेवारित्यस्फारयन् ऋस्वारिण्यम् स्वारिन्द्रे एवं वेदा अप्रतिस्परान् वा एकैच्छन्ति एषा संवत्सरे नाप्येता एकादशम् ज्ञाप्यते विष्णो वा ने विष्णुः यज्ञमालभन्लभन्दे विष्णुदेवमालभन्दे देवता एवावन्दते या वा पृथिव्या अहम् आलभन्दे या वा पृथिव्या देव प्रतिष्ठन्ति आयव्यं मत्समालभन्ते वैदेवेतनात् देवता वन्दे न्देण समर्थयन्ति अथे परिह्रियते ्राह्मणवन्दशाः लभ्यन्ते आप्रियम् पातुर्यमभ्यदृच्यते अगनीयः कुरुते प्रजापतिप्रजा सृष्ट्वा वृत्तो भूता ्रदस्य महाप्रदत्त्वम् महत्वमिति तन्महावृदस्य महाप्रदत्वम् महतो व्रतमिति तन्महावृदस्य महाप्रदत्त्वम् पञ्चविकुशस्वामो भवति चतुर्विवंशत्य संवत्सरः यद्वा एतस्मिन् संवत्सरे तदन्मम् पञ्चविघुशमभवत् एव प्रजानामूर्धीयते तस्मादन्ते प्रजाते प्रजनादैव नेद्यति पञ्चदशोऽन्यः पक्षो भवति सप्तदशो पञ्चविंश आत्मा भवति तस्मावरिष्ठाः विस्तुवन्ति प्रतिष्ठति सर्वेण सहस्तुवन्ति सर्वेण ह्या आत्मना आत्मन्वीत्पदन्ति एकैकामुच्छिंशन्ति आत्मन्ननि न एतेन सर्वः पुरुषा यदित इतो लोमानि ततो न कालः क्रियन्ते तान्यतेन प्रत्युत्प्यन्ते औदुम्बरस्य पूर्वान्नमदुम्बर्ज एवान्नाद्यः स्यात् स देवानाकुशाम्यक्षे तल्पसत्यमभिजयामि चतुल्पमायेर्पसत्यमेवाभिजयति यस्य दल्पसत्यमभिजिनगु स्यात् स देवानागुशाम्यक्षेपसत्यम् मापराजयशी चतुल्पमहर्ष्योदायेर्तल्पसत्यम् पराजयते महावी खा ्राह्मणः सव्यश्रोत्रः इमेत्यन्यूयाद्वादिकारै शाकैया राधिः तदन्यश्रीणादि इति प्रथमाष्टके द्वितीयः प्रश्नः समाप्तः